हरि ओम् श्री सीता नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे षट्चत्वारिंशः सर्गः श्रीरामलक्ष्मणो वितन्यो दृष्ट्वा वानराणाम् शोक इन्द्रजितो हर्षोद्गारो विभीषणेन सुग्रीवस्य प्रबोधनम् इन्द्रजितालङ्काम् गत्वा पितरम् प्रति शत्रुवध वृत्ताम् तस प्रसन्नेन रावणेन स्वपुत्रस्य अभिनन्दनम् ततो द्याम् पृथिवीं चैव वीक्षमाणा वनोकतः ददृशु सन्ततो बाणै भ्रातरो रामलक्ष्मणो वृष्टेषु परते देवे कृतकर्मणि रक्षसे आजगामासतं देशम् स सुग्रीवो विभीषणः नीलश्च द्विविधो मन्दः सुषेण ूर्णम् हनुमतासादम् अन्वशोचन्तराघवौ अचेष्टौ मन्द निःश्वासौ शोणितेन परिप्लुतौ शरजालाचितोस्तब्धौ शयानौ शरतल्पगौ निःश्वसन्तो यथासर्पौ निश्चेष्टो मन्द विक्रमौ रुधिरस्राव दिग्धाङ्गौ तौ वीर शयने वीरौ शयानो मन्द चेष्टितौ यूथ पैस्वै परिवृत्तौ बाष्पव्याकुलोचनै राघवो पतितौ दृष्ट्वा शरजालसमन्वितौ बभूवथिता सर्वे वानरः विभीचनह विभीषणः निरीक्षन्तो निरीक्षन्तु वानराह। न चैनम् मायया छन्नम् ददृशो रावणिमरणे तम् तु मायापतिच्छन्नम् मायैव विभीषण वीक्षमाणो ददर्शाग्रे भ्रातुपुत्रम् अवस्थितम् तमप्रतिम् कर्माणम् अप्रतिद्वन्द्वमाहवे ददर्शान्तर्हितम् वीरम् वरदानाद् विभीषणः तेजसा यशसा चैव विक्रमेण च संयुतः इन्द्रजीत्वात्मनः कर्म तौ शयानो समीक्षते वाचे परमप्रीतो हर्षयन् सर्वराक्षसान् दूषणस्य च हन्तारौ करस्य च महबलौ साधितो मामकै बाणे भ्रातरौ रामलक्ष्मणौ नेमो मोक्षयितुम् शक्यौ एतस्माद् इषु बन्धनात् सर्वै अपि समागम्य सशि यत्कृते चिन्तयानस्य शोकात् तस्य पितुर्मम अस्पृश्वा शयनम् गात्रे श्रियाम यातिव शर्वरी कृत्स्नेयम् यत् कृते लङ्कार सोऽयम् मूलः रोऽनर्थ सर्वेषां शमितो रामस्य लक्ष्मणस्यैव सर्वेषाम् चैव नोकसाम् सर्वे यथा च रेदितोन् सर्वान् राक्षसान् परिपश्यतः यूथपान्नपि तान् सर्वान् ताडय स च नीलं नवभिराहत्य महिनं स द्विविधं तथा त्रिभिः श्रीभि मित्रघ्न तथापरमेषुभि जाम्बवन्तम् हेश्वासु विद्वा बाणेन वक्षसि हनुमतो वेगवतो विससर्ज शरान्तश गवाक्षम् शरभं चैव तोप्यमित विक्रमो द्वाभ्यां द्वाभ्याम् हावेगो विव्याध रावणीः गोलाङ्गुलेश्वरं चैव वालिपुत्रम् अथगदम् विव्याध बहु भीवाणी परमाणोऽ रावणी तान्वानर वरान् भीत्वा शरय ननादे बलवान् तत्र महासत्त्व नर्सयित्वा बाणोघै रासयित्वा च वानरं प्रजहास महाबाहु वचनं चेदमब्रवीत् शरबन्धेन घोरेण मया बद्धौ च मुमुखे सहितो येतो निशामर यत् एवं मुक्ता सु ते सर्वे राक्षसाः कूटयोधिनः परम् विस्मयमापन्न कर्मण तेन हर्षिताः विनेदुश्च महानादान् सर्वे ते महाना जलदोपमः हतो राम इति ज्ञात्वा रावणीम् समपूजयन् निष्पन्दतु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणो वसुधायाम् निरुच्छ्वासो हतो इत्यहमन्यत हर्षेण तु समाविष्ट इन्द्रजी समितिञ्जय प्रविवेश पुरीम् लकाम् हर्षयन् सर्व नैरुतान् राम लक्ष्मणयोर्धृष्ट शरीरे सायके चिते सर्वाणि चाङ्गुपाङ्गानि सुग्रीवम् भयमाविशेत् तम् उवाच परित्रम् वानरेन्द्रम् विभीषण स बाष्पवदनम् दीनम् शोकव्याकुलोचनम् अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः सद्भाग्यशेषतास्माकम् यदि वीर भविष्यति मोहमेतौ प्रासीते महात्मानौ महाबलौ परिवस्थापयात्मानम् अनाथं मां च वानर सत्यधर्माभिरक्तानां नास्ति मृत्युकृतम् भयम् एवम् भुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिनः सुग्रीवस्य शुभे नेत्रे परममाजे विभीषणः सतः विद्यया परिजप्य च सुग्रीव नेत्रे धर्मात्मा परमाज विभीषणः विमरुज्य वदनं तस्य कपिराजस्य धीमतः अब्रवीत् काल सम्प्राप्तम् असम्भ्रातम् विदम्बचः न काले कपिराजेन्द्र वैक्लव्यमवलम्बितुम् अतिस्नेहोऽपि कालेऽस्मिन् मरणः योपकल्पते तस्मादुत्सृज्य वैक्लव्यम् सर्वकार्यविनाशनम् हितम् राम पुरोगाणाम् सैन्यानाम् अनुचिन्तय अथवा रक्षताम् रामो यावत्सन्या विपर्ययः लब्धतन्यो हि काकुत्स्थो भयम् नो व्यपनेष्यतः नैतत् किञ्चन न ह्येन हास्यते लक्ष्मि दुर्लभायागतायुषाम् तस्मादाश्वासयात्मानम् बलं चाश्वासय वृत्सकम् यावत् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम् एते हि पुल्लनयना त्रासादागत साध्वः कर्णे कर्णे प्रकथिता हरिो मान्तु दृष्ट्वा प्रधावन्त नैकम् सम्प्रहषितम् त्यजन्तु हरय त्रासम् भुक्तपूर्वमिव श्रयम् समाश्वास्य तु सुग्रीवम् राक्षसेन्द्रो विभीषणः विद्रुतम् वानरमेकम् तत् समाश्वासयत् पुनः इन्द्रजी तु विवेश नगरीं लङ्काम् पितरं चाभ्युपगमयत् तत्र रावणमासाद्य अभिवाद्य कुतञ्जलिः आचक्षे प्रियं पित्रे निहतो रामलक्ष्मणौ उत्पपातात् ततो हृष्ट पुत्रं च परिषस्वजे रावणो रक्षसां मध्ये श्रुत्वा उपाघ्राय च तम् मूर्नि पप्रच्छ प्रीतमानतः पृच्छते च यथा वृत्तम् पित्रे तस्मै न्यवेदयत् यथा तौ शरबन्धेन निश्चेतो निष्प्रभो कृतो सह च वेगानुगतान्तरात्मा रुत्वागिरम् तस्य महारथस्य जहोज्वरं दाशरथे समुर्थम् श्रुणृष्ट्वा च भिनन्दपुत्रम् इत्याख्ये श्रीमद् रामायणे वाल्मीकीयाधिकारे युद्धकाण्डे षट्चत्वारिंशत् सर्ग श्रीसीतारामचन्द्रार्पणमस्तु